चेतनाचेतनाहीनाय नमः ॐ चैतन्यानन्दसन्दोहाय नमः ॐ चैतन्यदोषविवर्जिताय नमः ॐ चेतनाचेतनाधिष्ठानाय नमः ॐ चिदेकराय नमः ॐ चिज्योतिषे नमः ॐ चिद्विलासाय नमः ॐ चैत्यबन्धविवर्जिताय नमः ॐ चिद्ब्रह्मैक्याय नमः ॐ चिदाकाशाय नमः ॐ चदाकाराय नमः ॐ चदाकृतय नमः ॐ चदाभासविहेनाय नमः ॐ चिन्तनातेताय नमः ॐ चैत्यवर्जितद्वमान्त्राय नमः ॐ चित्तसाक्षिणे नमः ॐ चिदाभाषसाक्षिणे नमः ॐ चिन्तानाशाय नमः ॐ चैतन्यमात्रसंसाध्याय नमः mm. चित्प्रतिबिम्बिताय <laughs> चित्रतुल्यजगत्साक्षिणे नमः ॐ चित्रप्रतिभाषकाय नमः ॐ छान्दोग्योपनिषत्प्रतिपाद्याय नमः न्दस्वरूपाय नमः ॐ छन्दस्साराय नमः ॐ छन्दस्वरूपाय नमः ॐ जन्महेनाय नमः ॐ ज्योतिर्मयाय नमः ॐ जायसे नमः ॐ ज्योतिषाञ्ज्योतिषे नमः ॐ ज्वरनाशविहेनाय नमः ॐ जरामरणवर्चिताय नमः ॐ जनरूपाय नमः जयाय नमः ॐ जाग्रत्कल्पनारहिताय नमः ॐ जपाय नमः ॐ जप्याय नमः ॐ जगज्ज्योतिषे नमः ॐ जगज्जारादिकारणाय नमः ॐ जगद्व्याप्याय नमः ॐ <coughs> जगन्नाथाय नमः ॐ जगत्सृष्टिविवर्जिताय नमः ओं जगदिष्ठाय नम ओं जीवाय नम ओं जन्म विनाशकाय नम ओं जगज्जान विनाय नम ओं जीवत्वरिताय नम ओं जलस्तपद्रम्यजगत्क्षिण नम ओं जीवभारिताय नम ॐ जीवाधिष्ठानाय नमः ॐ जिह्वारहिताय नमः ॐ जीवसाक्षिणे नमः ॐ जनहृदयसाक्षिणे नमः ॐ जीवाधाराय नमः ॐ जीवाभिमानरहिताय नमः ॐ जीवसाक्षिणे नमः ॐ जनातीताय नमः ॐ जीवचेष्टाविवर्जिताय नमः ॐ जीवावस्थासाक्षिणे नमः जगद्विलक्षणाय नमः ॐ जगत्साक्षिणे नमः ॐ जीवेश्वरजगत्साक्षिणे नमः ॐ जगद् नमः ॐ जाग्रत्कल्पनासाक्षिणे नमः ॐ जीवेश्वरजगत्स्थितये नमः ॐ झङ्कारादिशब्दसाक्षिणे नमः ॐ ज्ञाननिष्कलस्वरूपिणे नमः ॐ ज्ञानाज्ञानस्वरूपाय नमः ॐ ज्ञानाज्ञानविवर्जिताय नमः ॐ ज्ञानरूपाय नमः ॐ ज्ञानवेद्याय नमः ॐ ज्ञानानन्दप्रकाशाय नमः ॐ ज्ञानज्ञेयस्वरूपाय नमः ॐ ज्ञाननां सुदुर्लभाय नमः ॐ ज्ञानाज्ञानसाक्षिणे नमः ॐ ज्ञानहीनसुदुर्लभाय नमः ॐ ज्ञानहीनचोराय नमः ॐ ज्ञानगम्याय नमः ॐ ज्ञान्यज्ञानिचित्तसाक्षिणे नमः ॐ ज्ञानाज्ञानतस्कराय नमः ॐ टापहीनाय नमः ॐपसाक्षिणे नमः ॐपाटापविवर्जिताय नमः ॐ तत्त्वात्मने नमः ॐ तस्मै नमः ॐ तुभ्यं नमः ॐ तत्पराय नमः ॐ तन्मयाय नमः ॐ तत्त्वाय नमः ॐ तत्त्वस्वरूपाय नमः ॐ तत्त्वातत्त्वविवर्जिताय नमः ॐ तुषानलाग्ने तत्त्वरुस्वरूपाय नमः ॐ तत्त्वमर्थस्वरूपिणे नमः ॐ तेजस्वरूपाय नमः ॐ ताराय नमः ॐ तुर्यातेताय नमः ॐ तारकाय नमः ॐ तत्पदलक्ष्याय नमः ॐ तुर्याय नमः ॐ तारकमन्त्रार्थरूपाय नमः